श्रीगुरुभ्यो नमः अथ नवतितमोऽध्यायः श्रीशुक उवाच सुखं स्वपुर्यां निवसन् द्वारकायां श्रियः पतिः सर्वसम्पत्समृद्धायां ज्योष्ठायां वृष्णिःपुङ्गवैः त्रिभिश्चोत्तमवेषाभेर् नवयौवनकान्तिभिः कन्दुकादिभिर्हर्म्येषु क्रीडन्ती बिस्तडिद्युभिः नित्यं सङ्कुलमार्गायाम् मदश्चुद्भिर्मतङ्गजैः स्वलङ्कृतैर्भटैरस्वै रथैश्च कनगोज्वलैः उद्यानोपवनाढ्यायां पुष्पिद्रुमराजिषो निर्विसद्भृङ्गविहगैर्नादितायां समन्ततः रेमेशोटससाहस्र पत्नीनामेकवल्लभः वद विचित्रोसौ दुख महर्दिषु प्रोत्पूर्पल कलारुमुदाबोचरेणु वासीताज्बीजकुशु चीजार विगा्यांो ह्रदीनीषु महोदय कुचकुंकुमिप्तांग पीरब्द योषिता उबगीयमानो उभगीयमानो वादयत् वादयद्भिर्मुधा वीणां सूतमागतवन्दिभिः शिष्यमानोश्च्युतस्ताभेर् हसन्तीभि स्मरेचकैः प्रतिसिञ्झन् विचिर्घ्रीटे विचिक्रीडे यक्षिभिर्यक्षराढिव ताक्लिन्नवस्त्र बिभृतोरुकुचः प्रदेशाः सिञ्चन्त्य उद्धृत बृहद् कान्तं स्मरेच का जातस्मरोत्सवलसद्वदना विरेजुः कृष्णस्तु तत्स्तनविज्जितकुङ्कुमश्रग् क्रीडाभिषङ्घदुतकुन्तलवृद्धबन्धः सिञ्चन्मुखोर्युपधिभिप्रतिशिष्टमानो रेमे नर्तकीनां च गीतवाद्योपजीविनां क्रीडालङ्कारवाशांसि कृष्णोदात्तस्य छत् स्त्रियः कृष्णस्यैवम् विकरतो कद्यालापेक्षितस्मितैः नर्मक्ष्वेलिपरिष्वङ्गैः स्त्रीणां किल ऊचुर्मुकुन्दै किरो पुन्मद्धवज्जटम् चिन्तयन्त्योरविन्दाक्षम् तानि मे गततः शृणु स्वपिति जगति रात्र्यामीश्वरो गुप्त बोधः वयमि वयमिव सखि कश्चिद् गाढनिर्भिन्नचेत नलिनयनहासोधारलीलेक्षिते नेत्रेणि मीलयसि नग्धमदृष्टन्तुः त्वं रोरवीक्षि करुणं बत चक्रवाकी दास्यं गता वयमिवाश्युतपादजुष्टान् किं वा स्रजं स्पृहयसे कभरेण वोढुम् भो भोः सतानिष्ठनसेवुथन्वन् अलब्धनिद्रोधिगतप्रजागरः किं त्वं यक्ष्मणा बलवतासि गृहीत इन्दो क्षीणस्तमो न निज दीदिभीक्षिणोऽक्षी कच्चिन्मुकुन्तगतितानि यथा वयं त्वं विस्मृत्य भोस्तगितकीरुपलक्ष्यसेन किं त्वा चरितमस्माभिर्मलयानि लते प्रियं गोविन्दापाङ्कनिर्भिन्ने कृतीरयसि नः स्मरं मेकश्रीमस्तवमसि दयितो यादवेन्द्रस्य नूनं श्रीवत्साङ्गं वयमिव भवान् स्मद्वितो बाष्पधाराः स्मृत्वा स्मृत्वा विसृजसे मुहोर्दुग्गधस्तत्प्रसङ्गः प्रियराबपदानि भाषसे मृतसञ्जीविकायनया गिरा करवाणि किमद्यते प्रियं भद मे वल्गितकण्टकोकिल न चलसि न क्षिदिधरचिन्तयसे महान्तमर्थम् अपि भत वासुदेवनन्दनाग्रें वयमिव कामयसे तनैर्विधर्तुं सुष्यत्रधाकर्षिता भत सिन्धुपत्न्या सम्प्रत्यपास्तकमलश्रियिष्ठभर्धूर्यद्वद्वयं मधुपते प्रणयावलोकम् अप्राप्यमुष्टहृदया पुरुकर्षितास्म हंसस्वघातमास्यताम्बिवपयो ब्रूह्यङ्गसंरे कथां धूतं स्वस्त्यास्त उक्तम् पुरा किं बाणश्चलसौहृद स्मरति तम् कस्माद्भजामो वयं शौद्रालापयकामतं श्रियमृते सैवैकनिष्ठा स्त्रिया इति भावेन कृष्णे योगेश्वरेश्वरे क्रियमाणेन माधव्यो लेभिरे परमां गतिं श्रुतमात्रोऽपि यस्त्रीणां प्रसह्याकर्षते मनः उरुगायोरुगीतो वा पश्यन्तीनां कुतः पुनः या सम्पर्श्य जगद्गुरुं भर्द्रुबुद्ध्या तासां किं वर्ण्यते तपः एवं वेदोदितं धर्मम् अनुतिष्ठन् सतां गतिः गृहं धर्मार्थकामानां मुहुश्चादर्शयत्पदम् आस्तिष्ठस्त्य परं धर्मं कृष्णस्य गृहमेदिना आसन् षोटससाहस्रं महिष्यश्च तासां स्त्रीरत्नभूतानाम् अष्टव्या प्राक् उदाहृताः रुक्मिणीप्रमुखा तत्पुत्राश्चानुपूर्वसः एकैकस्यां एक दश दश आत्मजान् यावत्य आत्मनोपार्या अमोघगतिरीश्वरः तेषामुद्धामवीर्याणाम् अष्टादशमहारथाः आसन्नुधारय ससस्तेषां नामानिमे शृणु प्रद्युम्नश्च अनिरुद्धश्च दीप्तिमान् भानुरेव च शाम्भो मधुर्बृहद्भानोश्चित्रभानोर्भृगोरुणः पुष्करो वेतभाकुश्च श्रुतदेवसुनन्दनः चित्रभाकुर्विरूपश्च कविर्न्यग्रोत एव चेतेषामभिराजेन्द्र तनुजानामधुद्विषः प्रद्युं न आसीत् प्रथम पितृवत् रुक्मिणीसुतः दुहितरम् उपये मे मकारतः तस्मात् सुतो निरुद्धो भूत् नागायुतफलान्वितः स चापि रुक्मिणः पौत्रे दौहित्रो जगृहे वज्रस्तस्या भवत्यस्तु मौसलाधवशेषितः प्रतिभागुरभूतस्मात् सुभाकुस्तस्य चात्मजः सुभाको सान्तसेनो भूत् सदसेनस्तु तत्सुतः न ह्येतस्मिन् कुले जाता अतना न अबहु प्रजाः अल्पायुषोऽल्पवीर्यस्य अब्रह्मण्याश्च जज्ञेरे यदुवंशप्रसूतानां पुंसां विख्यातकर्मणां सङ्ख्या न शक्यते कर्तुम् अपि वर्षायुथैरृपा तिश्र्कोट्यसहस्राणाम् अष्टाशीतिशतानि च आसन् यदुकुलाचार्या कुमाराणामिति श्रुतं सङ्ख्यानं यादवानां खरिष्यति महात्मनां यत्रायुधानाम् देवा देवासुरागवहता दैतेया सुधारुणा ते चोत्पन्ना मनुष्य प्रजा दृप्ता बभदीरे तग्रहाय हरिण प्रोक्ता देवाय दोक अवतीर्णकुसाधिकृप तेषां प्रमाणं भगवान् प्रभुत्वेना हरिः ये चानुवर्तिनस्तस्य वव्रतुः सर्वयाधवाः सह्यासनाठनलाप क्रीडास्नानादिकर्मसो न विदुः तीर्थं चक्रे नृपोऽ यदजनि यदुषु स्वसरित्पादशौचं विद्वित्स्निग्धास्वरूपं ययुरजितपरा श्रीर्यधर्तेन्ययत्नः यन्नामा मङ्गलग्नं श्रुतमथ गतितं यत्कृतो गोत्रधर्मः कृष्णस्यैतन्तचित्रम् क्षितिभरहरणं कालचक्रायुधस्य जयति जननिवासो देवकी जन्मवाधो यतु वरपर्षत् स्वैर्धोर्भिरस्यन्न धर्मं स्थिरचरवृजिनग्नः सुस्मितश्रीमुखेन व्रजपुरवनितानां वर्दयन् कामदेवम् इत्थं परस्य निजवर्त्म रिरक्षयाथ लीलातनुस्तदनुरूपविडम्भनानि कर्माणि कर्मकषणानि यधुत्तमस्य श्रूयात् अमुक्ष्यपदयोरनुवृत्तिमिच्छन् मर्त्यस्तयानुसवमेदितया मुगुन्त श्रीमत्कथाश्रवणकीर्तनचिन्तयिति तद्धामदुस्तरकृतान्तजवापवर्गं ग्रामात् वनं षिधिभुजोऽपि ययोर्यधार्ताः इति श्रीमद्भगवते मखापुराणे वैयाशिक्यामष्टादशसार्ह्यां पारमहंस्यां संहितायां दशमस्कन्ते उत्तरार्ते श्रीकृष्णचरितानुवर्णनं नाम नवतितमोऽध्यायः इति दशमस्कन्तोत्तरार्थः समाप्तः हरिवों तस्त सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरूनाथमघराजकी जय